राव दशकम् भगवत्रूपवर्णने सूर्यस्पर्ति किरीट ऊर्वतिलकम् प्रोद्भासिपालान्तरम् कारुण्याकुलनेत्रमाद्रगसितोल्लासम् सुनासा पुटम् गण्डोद्यन्मकराबकुण्डलयुगम् कण्डोज्ज्वल कौस्तुपम् त्वद्रूपम् वनमाल्यहारपटल रत्नाङ्गुलीयाङ्गित श्रीमद्बागुचतुष्कसङ्गत गदा शङ्करि वङ्केरुहा काञ्चित् काञ्चन काञ्चिलाञ्चितलस पीताम्बरालम्बिनी आलम्बे विमलाम्बुजद्युदिपदा मूर्तिम् पदार्चिच्युतम् यत्रैलोक्यमहीयसोऽपि महितो सम्मोहनम् मोहनात् कान्तम् कान्ति निदानतोऽपि मधुरम् माधुर्य दुर्यादबी दुर्या सौन्दर्योत्तरतोऽपि सुन्दरतरौ त्वद्रूपमाश्चर्यतोऽपि आश्चर्यम् भुवनेन कस्य तत्तादृङ्मदुरात्मकम् तव वब सम्प्राप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरम् नास्ते स्वभक्तेष्वपि ते प्रेमस्थैर्यमया दशा बलबला लक्ष्मीस्तावगरामणीयगृतै वेयम् परेश्व स्थिरा अस्मिन् अन्यदबे प्रमानमधुना वक्ष्यामि लक्ष्मीपते ये त्वद्यानगुणानुकीर्तनरसा सक्ता कि भक्ता जना तेष्वेषा दयित प्रस्तावदत्तादरा एवम्भूतमनोज्ञता न वसुधा निश्यन्दसन्दोहनम् त्वद्रूपम् परचित्रसायनमयम् चेतो हरम् शृण्वता सत्य प्रेरयते मदिम् यासिञ्चत्यभिचितभाष्य विसरैः आनन्दमूर्च्छोद्भवै एवम् भूततया हि भक्त्यभिहितो योगत्स योग त्वया भक्तिर्निश्रमेव विश्वपुरुषे लभ्या रमावल्लभा निष्कामम् नियतस्वधर्मशरणम् यत्कर्मयोगाभितम् तद्दूरेत्य बलम् यतोपनिषत् ज्ञानो बलव्यम् पुनः तत्त्वद्व्यक्तदया सुदुर्गमतर चित्तस्य सस्मात् विभो त्वत्प्रेमात्मकभक्तिरेव अध्याया स्वादीयसी श्रेयसी अद्यायासकराणि भूते भक्तिपदे तवापि उचित आयान्ति किम् तावता क्लिष्ट्वा तर्कपते परम् तव वपो ब्रह्माक्यमन्ये पुनः सिद्धाध्वम् रुदे विचिन्त्य बहुवे सिद्ध्यन्ति जन्मान्तरे त्वद्भक्तिस्तु कथारसामृतजरी निर्मज्जनेन स्वयम् सिद्ध्यन्ति विमलप्रबोधपदवे अक्ले च दस्तन्वती विभो सैवास्तुमे तत्पद प्रेम प्रौढिरसाद्रताद्रततरम् वादालयादीश्वरा श्रीकृष्ण गोविन्द हरे मुरारे श्रीनाथनारायण वासुदेवा